सौतिरुवाच नागाश्च संविदम् कृत्वा कर्तव्यमिति तद्वचः निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा प्रसन्नामोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी कृष्णम् पुच्छम् करिष्यामस्तुरगस्य न संशयः इति निश्चित्यते तस्य कृष्णावाला इव स्थिताः तु सपत्न्यौ पणिते तदा ततस्ते पणितम् कृत्वा भगिन्यौ द्विजसत्तमाम् जग्मतुः परया प्रीत्या परम् पारम् महो दधेः कद्रूश्च विनता चैव दाक्षायण्यौ विहाय सा आलोकयन्त्या वक्षोऽभ्यन्समुद्रन्निधिमम्भसाम् वायुनातीव सहसा क्षोभ्यमाणम् महास्वनम् तिमिङ्गिलमहाकीर्णम् मकरैरावृतम् तथा संयुतम् बहुसाहस्रैस्तत्त्वैर्नानाविधैरपि घोरैर्घोरमनाधृष्यम् गम्भीरमतिभैरवम् आकरन् सर्वरत्नानामालञवरुणस्य च नागानामालयञ्चापि सुरम्यन् सरिताम् पतिम् पातालज्ज्वलनावासमसुराणाम् तथा लयम् सत्वानां सत्त्वानाम् पयसोनिधिमव्ययम् शुभ्रम् दिव्यमममर्त्यानामृतस्य करम् परम् अप्रमेयमचिन्त्यम् च सुपुण्यजलसम्मितम् महानदीभिर्बह्वीभिस्तत्र तत्र विकसितमम्बरप्रकाशम् पातालज्ज्वलनशिखा विदीपिताङ्गर्जन्तम् द्रुतमभिजग्मतुस्ततस्ते